अथ ध्यानयोगो नाम षष्ठोऽध्यायः श्रीभगवानुवाच अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ससंन्यासी च योगी च न निरग्निर्न चक्रियः यम सन्यासमिति प्राहुः योगं तं विद्धि पाण्डव न योगी भवति कश्चन आरुरुक्षोर्मुनेर्योगं कर्मकारणमुच्यते योगारूढस्य तस्यैव शमःकारणमुच्यते यदा हि नेन्द्रियार्थेषु न कर्म स्वनुषजते सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते उद्धरेदात्मनात्मानं नात्मानमवसादयेत् आत्मैव ह्यात्मनो बन्धुः आत्मैव रिपुरात्मनः बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः अनात्मनस्तु शत्रुत्वे तात्मै शत्रुवत् जितात्मन प्रशान्तस्य परमात्मा समाहितः शीतोष्णसुखदुःखेषु तथा मानापमानयोः ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः युक्त इत्युच्यते योगी समलोष्टाश्मकञ्चनः सुहृन्मित्रार्युदासीन मध्यस्थ द्वेष्यबन्धुषु साधुष्वपि योगी युञ्जीत आत्मानं रहसि स्थितः एकाकीयतचित्तात्मा निराशिरपरिग्रहः शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः नातिनीचं चैलाजिनकुशोत्तरं तत्रैकाग्रं यतचित्तेन्द्रियक्रियः उपवेश्यासने युञ्जात् योगमात्मविशुद्धये समं कायशिरोग्रीवं धारयन्नचलं स्थिरः सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् प्रशान्तात्मा विगतभिः ब्रह्मचारी व्रतेस्थितः स्थितः मनः संयमयमच्चित्तो युक्त सदात्मान योगी नियतमानसः शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति नात्यस्नतस्तु योगोस्ति नचैकांतमनस्नतः नचातिस्वप्नशीलस्य न जाग्रतो नैव युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगो भवति यदा विनियतं चित्तम् आत्मन्येवावतिष्ठते निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा यथा दीपो निवातस्थो निङ्गते सोपमस्मृता योगिनो यतचित्तस्य युञ्जतो योगमात्मनः परमते चित्तं निरुद्धं योगसेवया यत्र चैवात्मानात्मानं पश्यन्नात्मनि तुष्यति सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतिन्द्रियं वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते तं विद्या दुःखसंयोगवियोगं योगसंज्ञनिश्चयेन योक्तव्यो योगो चेतसा। सङ्कल्पप्रभवान् कामान् त्यक्त्वा सर्वान् शेषतः मनसैवेन्द्रियग्रामम् विनियम् शनै शनै शनैः शनैरुपरमे बुद्ध्या धृतिगृहीतया आत्मसंस्थम् मनः कृत्वा न चिन्तयेत् यतो यतो निश्चलति मनश्चञ्चलमस्थिरं ततस्ततो नियं यैतद् आत्मन्येव वशं नयेत् प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् उपैतिशान्तरजसं ब्रह्मभूतमकल्मषं युञ्जन् एवं सदात्मानम् योगी विगतकल्मषः सुखेन ब्रह्मसंस्पर्शम् अत्यन्तं सुखमश्नुते सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति तस्याहं न प्रणश्यामि स प्रणश्यति सर्वभूतस्थितं यो मां भजत्येकत्वमस्थितः सर्वथा वर्तमानोऽपि स योगी वर्तते आत्मोपं येन सर्वत्र समं पश्यति योऽर्जुन सुखं वा यदि वा दुःखं स योगी अर्जुन उवाच योऽयं योगस्त्वया प्रोक्तः सं येन मधुसूदन एतस्याहं न पश्यामि चञ्चलत्वात् हिमनः कृष्ण प्रमाथि कृष्णप्रमाथिबलवद्धृढं तस्याहं निग्रहं मन्ये वायोरिवसुदुष्करं श्रीभगवानुवाच असंशयं महाबाहो मनो दुर्निग्रहं चलम् अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते असंयतात्मना योगो दुष्प्रापहिति इति वश्यात्मना तु यतता शक्योवाप्तुमुपायतः अर्जुन उवाच अयतिश्रद्धयोपेतो योगाचलितमानसः अप्राप्य योगसंसिद्धिं कं कृष्ण गच्छति कच्चिनो भयविभ्रष्टः छिन्नाभ्रमिव अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि एतन्मे संशयं कृष्ण छेत्तुर्महस्य शेषतः त्वदन्यः संशयस्यास्य छेत्ता न श्रीभगवानुवाच पार्थनैवेहनामुत्र विनाशस्तस्य विद्यते न हि कल्याणकृत्कश्चित् उषित्वा शाश्वतिसमाः शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते अथवा योगिनामेव कुले भवति धीमताम् एतद्धि दुर्लभतरं लोके जन्म यदीदृशं तत्र तं बुद्धिसंयोगम् लभते पौदेक यतते चततो चतो भूय संौ कुरु नंदन पूर्वाभ्यास ने नियते ह्यवशि जिज्ञासुर वर्तते प्रयत्नातमस्तू योगी संशुद्ध कि तपस्विभ्योधिको योगी ज्ञाभ्यो मत कर्मिभ्याधिकको योगी तस्मागी भार्जुन योगीनाषा मद्गतेनन्तरात्मना श्रद्धावान् भजते यो मां समे युक्ततमो मतः इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ध्यानयोगो नाम षष्ठोऽध्यायः